अथ षोडशाधिकद्विशततमोऽध्यायः वर्गोवाच ततो वयम् प्रव्यथिताः सर्वा भारतसत्तमा अयामशरणम् विप्रम् तम् तपोधनमच्युतम् रूपेण वयसा चैव कन्दर्पेण च दर्पिताः अयुक्तम् एष एव वधोऽस्माकम् सुपर्याप्तस्तपोधना यद्वयम् संशितात्मानम् प्रलोब्धुम् त्वामिहागताः अवध्यास्तु श्रियः सृष्टा मन्यन्ते धर्मचारिणः तस्माद्धर्मेण वर्धत्वम् नास्मान् हिंसितुमर्हसि सर्वभूतेषु धर्मज्ञा मैत्रो ब्राह्मण उच्यते सत्यो भवतु कल्याण एष वादो मनीषिणाम् शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनं शरणं त्वां प्रपन्नाः स्मः तस्मात् त्वं क्षन्तुमर्हसि वैशम्पायन उवाच एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत् प्रसादं कृतवान् वीरा रविसोमसमप्रभः। ब्राह्मण शतम् शतसहस्रम् तु सर्वमक्षय्यवाचकम् परिमाणम् शतम् त्वे तन्नेदमक्षय्यवाचकम् यदा च वोग्राहभूता गृह्णन्तिः पुरुषाञ्जले उत्कर्षति जलात् तस्मात् स्थलम् पुरुषसत्तमः तदा यूयम् पुनः सर्वाः स्वं रूपम् प्रतिपत्स्यथ अनृतम् हसतापि कदाचन ततः प्रभृति चैवः नारीतीर्थानि नारी नाम्नेहा ख्यातिम् यास्यन्ति सर्वशः पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् वर्गो वाच ततोऽभिवाद्यतम् विप्रम् कृत्वा चापि प्रदक्षिणम् अचिन्तयामोपसृत्य तस्माद्देशात् सुदुःखिताः क्वनु नाम वयम् सर्वाः कालेनाल्पेन तम् नरम् समागच्छेमयो नस्तद् रूपमापादयेत्पुनः